श्रीहरये नमः अत एको न त्र्य संशोध्यायः देवहूतिरुवाच रक्षणम् अखादादीनां प्रकृते पुरुषश्च स्वरूपं लक्षते मीक्षां येन तत् पारमार्तिकं यथा साङ्ख्येषु कथितं यन्मूलं तत् प्रक्षते भक्तियोगस्य मे मार्गं ब्रोहि प्रभो विरागो येन पुरुषे भगवन् सर्वतो भवेत् आ चीवलोकस्य विविधामवसंश्रुतिः कालस्येश्वररूपस्य परेक्षां च परस्यते। ते स्वरूपं भद कुर्वन्ति यत् ह्येतोकुशलं जनाः लोकस्य मिथ्याभिमते अचक्षुश्चिरं प्रसोप्तस्य तमस्य नाश्रये श्रान्तस्य कर्मस्वनुविद्यया धिया त्वमाविरासे मैत्रेयौ वाच इति मा दुर्वचश्लक्ष्णं प्रतिनन्द्यमहामुनिः आबभाषे कुरु प्रेतस्ताम् प्रेतस्तां करुणार्दितः श्रीभगवानुवाचां भक्तियो गो भगोविदो स्वगुण मगेण पुंसा भाव विभि अभिसन्धाय यो हिंसा धम्भं मात्सर्यमेव वा सम्भ्रम्भीभिन्नदृग्भावं मयि कुर्यात्स तामसः विषयानभिसन्धाय यश ऐश्वर्यमेव वा अर्चातावर्चयेद्यो मां पृथग्भावसराजसः कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम् पृथक्भावस सात्विकः मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये मनोगतिरविश्चिन्ना यदा गङ्गाम्बसोऽम्बोधवो लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् अहैतुक्यव्यवहिताय भक्तिपुरुषोत्तमे सालोग्यसाष्टिसामीभ्यं सारूकत्वमभ्युत धीयमानं न गृह्णन्ति विना मत्सेवनं जनाः स एव भक्तियोगाज्ञ आत्यन्तिकभूताहृतः येनातिव्रजत्रिगुणम् मद्भावयोपबध्यते निषेवितेनानिमित्तेन स्वधर्मेण महीयसा क्रियायोगेन सस्तेन नातिहिंश्रेण नित्यसुः मद्दिष्ण्यदर्शनस्पर्श भूजास्तुत्यभिवन्दनैः भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च महताम्बहुमानेन दीनानाम् अनुकम्पया मैत्या चैवात्मतुल्येषु यमेन नियमेन च आध्यात्मिकानुश्रवणात् नाम सङ्कीर्तनाश्च मे आर्जवे नार्यसङ्घेन निरहङ्क्रियया तथा मद्धर्मणो गुणैरेतैः परिसंशुद्ध आशयः पुरुषस्याजसाव्येते श्रुतमाद्रगुणं हि मां तथा वातरतो आवृङ्क्ते गन्त आशयात् एवं यो गरतं चेत् आत्मानमभिकार्य अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा तमवज्ञायमामर्त्य कुरुतेर्चाविडम्बनं यो मां सर्वेषु भूतेषु सन्तम् आत्मानमीश्वरं हित्वार्चाम् भजते मौढ्याद् भस्मन्येव जुहोति सः द्विशतः परकाये मां मानिनो भिन्नदर्शनः भूतेषु भक्तवैरस्य मनःशान्तिं रोचते अहमुच्चावचैद्रव्ये क्रिययोत्पन्नया नगे नैव तुष्येऽर्चितोश्चार्या बोधक्रामवमानिनः अर्चाधावर्चयेत् यावत् ईश्वरं मां स्वकर्म क्रेत् यावन्तवेतस्व आत्मनश्च परस्यापि य तस्य भिन्नदृशो मृत्योर्विदते भयमुल्भणम् अथ मां सर्वभूतेषु भूतात्मानं कृता लयम् अर्हये चक्षुषा जीवा श्रेष्ठा जीवानां ततः बे ततः सच्चित्तः तत्राभिस्पर्शवेदिभ्यः प्रवरारसवेदिनः तेभ्यो गन्तवितश्रेष्ठा स्ततः सप्तविधो वराह रूपभेदविदस्तत्र तथच्छोभयतो धतः तेषां बगुपता श्रेष्ठाश्चतुष्पादस्ततोद्विपत् तथो वर्णाश्च च स्तेषां ब्राह्मणवोत्तमः ब्राह्मणेष्वपि वेदज्ञो ह्यर्धज्ञोऽप्यधिकस्ततः अर्धज्ञा संशयश्चेत् ततश्रेयान् स्वकर्म क्रेत् मुग्धसङ्गस्ततो भूयान् तथोक्ता क्रियार्थात्मानिरन्तरः मय्यर्पितात्मनः पुंसो मयि संन्यस्तकर्मणः न पश्यामि परं भूतम् अकर्तुसमदर्शनात् मनसैतानि भूतानि प्रणमेद्मकुमानयन् ईश्वरो जीवकलया, प्रविष्टो भगवानिति भक्तियोगस्य योगस्य मया मानव्युधीरितः ययो एकतरेणैव पुरुषः पुरुषं व्रजेत् एतद्भगवतो रूपं ब्रह्मणः परमात्मनः परं पुरुषं दैवं कर्म विचेष्टितं रूपभेदास्पदं दिव्यं कालयित्यभिधीयते भूतानामगदादीनां यतो भिन्नदृशाम्भयम् योत्त प्रिवश्य भूतानी भूतलाश विष्णुवाक्यो दियो सौकालकलयतां प्रभुः न सा च कश्चिदयितो न द्वेषो न च बान्धवः आविसत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृद् यद्भयाद्वाति सूर्यस्तपति यद्भयात् यद्भयात् भकणो भाति यद्वनस्पतयो बीता लता शौक्षधिभेत् सखा स्वेष्वे कालभिगृह्नन्दे पुष्पाणि च फलानि च श्रवन्ति सरितो नभोदातादि स्वसतां पथं यन्नियमादतः लोकं स्वदेहं तनोते महान् गुणाभिममानि नो देवान् सर्गादिषु अवस्य यद्भयाद् वर्तन्ते नु युगं येषां वसयेतश्चराचरं सोऽनन्तोऽनन्तकरकालो नादिरादिक्रधव्ययः धनं जनेन जनयन् मारयन्मृत्युनान्तकम् इति श्रीमद्भागवते महापुराणे तृतीयस्कन्ते कापि लो यो भाग्याने एकोनत्रंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथमगराजिके जय